गरुडपुराणम् आचारकाण्डम् अध्यायम् 24 फोर् सूत उवाच वक्ष्ये गणाधिका पूजा सर्वदा स्वर्गदाः पराः गणासनम् गणमूर्तिम् गना गणाधिपतिमर्चयेत् गामादिहृदयाद्यङ्गम् दुर्गाय गुरुपादुकाः दुर्गासनम् च तन्मूर्तिम् ह्रीम् दुर्गे रक्षणीति च ृदादिकम् नवशक्रियो रुद्र चण्डा प्रचण्डया चण्डोग्रा चण्डनायिका चण्डा चण्डवदीक्रमाद चण्डरूपा चण्डिकाख्या दुर्गे दुर्गे धरक्षिणि वज्रखड्गादिका मुद्रा शिवाद्या वन्निदेशदः सदाशिव महाप्रदपद्मासनमधापि क्लीं सौस्त्रिपुरायै नमः ॐ ह्रां ह्रीं खें खैं स्त्रीं स्कीं ह्रों स्वें स्वें शां पद्मासनम् च मूर्तिम् च त्रिपुरा हृदयादिकम् पीडाम्बुजेदु ब्राकयादिर्ब्रह्मणीजमहेश्वरी कौमारी वैष्णवीपूज्य वाराही चेन्द्रदेवता चामुण्डाचण्डिका पूज्या भैरवाङ्घ्यांस्तदो यजेद उन्मत्त उन्मत्तभैरवः पालीभीषणश्चैव संहारश्चाष्ठभैरवाः भैरवाः पञ्च बाणाश्च योगिनी वटुकम् दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः पद्मगर्भे मण्डलेश्च त्रिकोणे चिन्तये धृति शुक्लाम् वरदाक्षसूत्र पुस्ताभयसमन्वितान् लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेद इति श्रीगारूडे महापुराणे आचारकाण्डे त्रिपुरादिपूजानिरूपणम् नाम चतुर्विंशोऽध्यायः ओम्